अथ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः जानन्नपि सुरा नेवम् श्लक्ष्मम् वचनमब्रवीत् उपायः कोऽवधे तस्य राक्षसाधिपतेः सुराः यमहन्तम् समास्थाय निहन्यामृषिकण्टकम् एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् मानुषम् रूपमास्थाय रावणम् जहि संयुगे सहितेऽपे तपस्तीव्रम् दीर्घकालमरिन्दमः येन तुष्टो भवद्ब्रह्मा लोककृल्लोकपूर्वजः सन्तुष्टः तस्मै राक्षसाय वरम् प्रभुः नानाविधेभ्यो भूतेभ्यो भयम् नान्यत्र मानुषात् अवज्ञाताः पुरातेन वरदाने मानवाः एवम् पितामहा तस्माद् वरदानेन गर्वितः उत्सादयति लोकाम् स्त्रीम् स्त्रियश्चाप्युपकर्षति तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परम् तप इत्येतद्वचनम् श्रुत्वा सुराणाम् विष्णुरात्मवान् पितरम् रोचयामास तदा दशरथम् नृपम् स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः अजयत्पुत्रियामिष्टिम् पुत्रेऽप्सुरसूदनः सकृत्वा निश्चयम् विष्णुरामन्त्र्य च पितामहम् अन्तर्धानम् गतो देवैः पूज्यमानो महर्षिभिः ततो वैयजमानस्य यजमानस्य प्रादुर्भूतं प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् कृष्णम् रक्ताम्बरधरम् रक्ता स्निग्धहर्यक्षतनुज श्वश्रुप्रवरमूर्धजम् दिव्याभरणभूषितं। दिव्याभरणभूषितम् शैलशृङ्गसमुत्सेधम् दिवाकरसमाकारं। दिवाकरसमाकारम् दीप्ता नलशिखोपमम् तप्तजाम्बूनदमयीम् राजतान्तपरिच्छदा प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीमिव समवेक्ष्या ब्रवीद्वाक्यमिदम् दशरथम् नृपम् प्राजापत्यम् नरम् विद्धि मामिहाभ्यागतम् नृपा ततः परम् तदा राजा प्रत्युवाच कृताञ्जलिः भगवन् स्वागतम् तेऽस्तु किमहम् अथो पुनरिदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् राजन्नर्चयता देवानद्य प्राप्तमिदम् त्वया इदम् तु नृपशार्दूलपायसम् देवनिर्मितम् प्रजाकरम् गृहाण त्वम् धन्यमारोग्यवर्धनम् भार्याणामनुरूपाणामश्नीतेति प्रयच्छवै तासु त्वम् लप्स्यसे पुत्रान्यदर्थम् यजसे नृप पात्रीम् देवान्न सम्पूर्णाम् देवदत्ताम् हिरण्मयी अभिवाद्य च तद्भूतमद्भुतम् प्रियदर्शनं। मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ततो दशरथः प्राप्य पायसम् देवनिर्मितम् बभूवपरमप्रीतः प्राप्य वित्तमिवाधनः ततस्तदद्भुतप्रख्यम् भूतम् परमभास्वरम् संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत हर्षरश्मिभिरुद्योतम् तस्यान्तः पुरमाबभौ शारदस्याभिरामस्य चन्द्रस्यैव नभोऽशुभिः सोऽन्तः पुरम् प्रविश्यैव कौसल्यामिदमब्रवीत् पायसम् प्रति गृह्णीष्व पुत्री यन्त्विदमात्मनः कौसल्यायै नरपतिः पायसार्धम् ददौ तदा अर्धादर्धम् ददौ चापि सुमित्रायै न राधिपः कैकेय्यै चावशिष्टार्धम् ददौ पुत्रार्थकारणात् प्रददौ चावशिष्टार्धम् पायसस्यामृतोपमम् अनुचिन्त्य सुमित्रायै पुनरेव महामतिः एवम् तासाम् राजा भार्याणाम् पायसम् ताश्चैवम् पायसम् नरेन्द्रस्योत्तमस्त्रियः सम्मानम् मेनि रे सर्वाः प्रहर्षोदितचेतसः ततस्तु ताः प्राश्यतमुत्तमस्त्रियो महीपतेरुत्तमपायसम् पृथक् हुता शनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा ततस्तु राजा प्रतिवीक्ष्यता स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः बभूवहृष्टस्त्रिदिवे यथा हरिः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः